अन्न वान् दक्षिणावाँश्च सर्वैः समुदितो गुणैः युधिष्ठिरेण सम्प्राप्तो राजसु यो महा क्रतुः सुनयाद् वासुदेवस्य भीमार्जुन बलेन च घातयित्वा जरासन्धम् चैद्यञ्च बलगर्वितम् दुर्योधनम् समागच्छन्नर्हणानि ततस्ततः मणिकाञ्चन रत्नानि गो हस्त्यश्वधनानि च विचित्राणि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 अन्वजानात् ततो द्यूतम् धृतराष्ट्रस्सु तप्रियः तच्छ्रुत्वा वासुदेवस्य कोपः समभवन् महान् नाति प्रीतमनाश्चासीद् विवादांश्चान्वमोदत द्यूतादीननयान् घोरान् निरस्य विदुरम् धृतराष्ट्रश्चिरम् ध्यात्वा सञ्जयम् वाक्यमब्रवीत् शृणु सञ्जय सर्वम् मे न चासूयितुमर्हसि श्रुतवानसि मेधावी बुद्धिमान प्राज्ञ सम्मतः न विग्रहे मम मतिर्न च कुलक्षये नमे मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा वृद्धम् मामभ्यसूयन्ति पुत्रामन्युपरायणाः अहम् त्व कार्पण्यात् पुत्र प्रीत्या सहामि तत् मुह्यन्तम् दुर्योधनमचेतनम् राजसूये श्रियम् दृष्ट्वा पाण्डवस्य महौजसः तच्चावहसनम् प्राप्य सभारोहण दर्शने अमर्षणः स्वयम् जेतुमशक्तः पाण्डवानरणे निरुत्साहश्च सम्प्राप्तम् स क्षत्रियोपिसं क्षत्रियोऽपि सन् गान्धार राज तत्र यद्यथा ज्ञातम् मया सञ्जय श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः ततो ज्ञास्यसि सौते प्रज्ञा यदा श्रौषम् धनुरायम्यचित्रम् विद्धम् लक्ष्यम् पातितम् वै पृथिव्याम् कृष्णाम् हृताम् प्रेक्षताम् सर्वराज्ञाम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् द्वारकायाम् सुभद्राम् प्रसह्योढाम् माधवीमर्जुनेन इन्द्र प्रस्थम् वृष्णिवीरौच यातौ तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् देवराजम् प्रविष्टम् शरैर्दिव्यैर्वारितम् चार्जुनेन तथा तर्पितम् खाण्डवे च तदा विजयाय सञ्जय यदा श्रौषम् जातुषाद् वेशमनस्तान् मुक्तान् पार्धान् पञ्चकुन्त्या समेतान् युक्तम् चैषाम् विदुरम् स्वार्थ सिद्धौ तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् द्रौपदीम् रङ्ग भित्वा निर्जिताम् अर्जुनेन शूरान् पञ्चालान् पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् मागधानाम् वरिष्ठम् जरा सन्धम् क्षत्र हतम् भीमसेनेन गत्वा तदा नाशंसे विजयाय सञ्जय यदाश्रौषिम् दिग्विजये पाण्डुपुत्रैर्वशीकृतान् भूमिपालान् प्रसह्य महाक्रतुम् राजसूयम् कृतञ्च तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् द्रौपदीमश्रुकण्ठीम् सभाम् नीताम् दुःखिताम् एकवस्त्राम् रजस्वलाम् नाथवतीमनाथवत् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् वाससाम् तत्र राशिम् समाक्षिपत्कृतवो मन्द बुद्धिः दुःशासनो विजयाय सञ्जय यदाश्रौषम् हृतराज्यम् युधिष्ठिरम् पराजितं सौबलेनाक्षवत्याम् अन्वागतम् भ्रातृभिर प्रमेयैस्तदा नाशंसे विजयाय सञ्जय यदा विविधास्तत्र चेष्टा धर्मात्मनाम् प्रस्थितानाम् वनाय ज्येष्ठ प्रीत्या क्लिश्यताम् पाण्डवानाम् तदा विजयाय सञ्जय यदा श्रौषम् स्नातकानाम् सहस्रैरन्वागतम् धर्म भिक्षाभुजाम् ब्राह्मणानाम् महात्मनाम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषमर्जुनम् देवदेवम् किरात रूपम् त्र्यम्बकम् तोष्य युद्धे अवाप्तवन्तम् पाशुपतम् महास्त्रम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् वनवासे तुपार्थान् समागतान् महर्षिभिः पुराणैः उपास्यमानान् सगणैर्जात सख्यान् तदा नाशंसे यदा श्रौषम् त्रिदिवस्थम् धनञ्जयम् शक्रात् साक्षात् दिव्यमस्त्रम् यथावत् अधीयानम् शंसितम् सत्यसन्धम् तदा नाशंसे विजयाय यदा श्रौषम् कालकेयास्ततस्ते पौलो मानो वरदानाच्च दृताः देवैरजेया निर्जिताश्चार्जुनेन तदानाशं से विजयाय सञ्जय यदा श्रौषमसुराणाम् वधार्थे किरीटिनम् यान्तममित्र कर्षनम् कृतार्थम् चाप्यागतम् शक्र लोकात् तदा विजयाय सञ्जय यदा श्रौषम् तीर्थयात्रा प्रवृत्तम् पाण्डोस् सुतम् सहितम् लोमशेन तस्मादश्रौषीदर्जुनस्यार्थ लाभम् तदा विजयाय सञ्जय यदाश्रौषम् वैश्रवणेन सार्धम् समागतम् भीम मन्यांश्चपार्थान् तस्मिन् देशे मानुषाणामगम्ये तदानाशं से विजयाय सञ्जय यदाश्रौषम् घोष यात्रागतानाम् बन्धम् चार्जुनेना चार्जुनेन स्वेषाम् सुतानाम् कर्णबुद्धौ रतानाम् विजयाय सञ्जय यदाश्रौषम् यक्षरूपेण धर्मम् समागतम् धर्म सूत प्रश्नान् काञ्चित् विब्रुवाणम् सम्यक् तदा नाशंसे विजयाय सञ्जय